श्रीमद्भागवत् महापुराणं दशं स्कन्ध ऊचू पौरा अहो गोप्यस्तप किं चरन्महदं या हे तावन् पश्यन्ति नरलोकमहोत्सवौ रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः दृष्ट्वा याचत वाशांसि धौतान्यत्युत्तमानि च देह्यावयो समुचितान्यङ्गं वसां वासांसि चार्हतोः भविष्यति परं श्रेयो दातुस्तेनात्र संशयः स याचितो भगवता परिपूर्णेन सर्वतः साक्षेपं रसितः प्राहभृत्यो राज्ञुर्मतः एषान्येव वासांसि नित्यं गिरिवने परिधत्ता किमुन्वृत्ता राजद्रव्याण्यभीप्सत याताशो बालिसामैवं तार्सं यदि जीविषां बद्धन्ति घ्नन्ति देवं विकथमानस्य कुपितो देवकीसुतः रजकस्य कराग्रेण शिरकायादपातयत् तस्यानुजीविन सर्वे वांसकोशान् विसृज्य वै दुद्रवो सर्वतो मार्गं वासांसिज गृहे च्युतः वसित्वात्मप्रिये वस्त्रे कृष्णशङ्करशणस्तथां शोषां शेषाण्यातन्दत गोपेभ्यो विसृज्य भुविकानु ततस्तु वायुकप्रीतस्तयोर्वेशं कल्पयत् राकल्पै विचित्रमर्णैश्चैलेयैराकल्पैरनुरूपतः नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतु स्वलङ्कृतौ बालगजौ परमणि वसितेतरो तस्य प्रसन्नो भगवान् प्रादासालुप्यमात्मनः श्रियं च परमां लोके बलैश्वर्य स्मृतेन्द्रियम् ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः तौ समुत्थायन श समुत्थाय न नाम शिर्षा भुवि तयोरासनमानीयपाद्यं चार्घ्यार्हणादिभिः पूजां सानुगयोश्चक्रे सकृताम्बूलालुलेपनैः प्राहनशासकं जन्म पावित्रं च कुलं प्रभो वित्तते वर्षयो मह्यं तुष्टायागमनेन भवन्तौ किल विश्वस्य जगतः कारणम् परम् अवतीणाभिहांसेन क्षेमाय च भवाय च न हि वां जगदात्मनो समयो सर्वभूतेषु भजन्तं भजतोरपि तावाज्ञापय त्वम् भृत्यम् किमहम् कर्माणि माम् पुंसोऽत्यनुग्रहो इत्यभ्युप्रेत्य राजेन्द्र सुदामा प्रीतमानश सस्तैः सुगन्धैः कुसुमैर्मालाविरचिता ददौ ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ प्रणताय प्रपन्नाय ददुर्वरदौ वरान् सोऽपि दव्रेचनां भक्तिं तस्मिन्नेव अखिलात्मनि तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् इति तस्मै वरं दत्वा श्रियं चान्वयमर्धिनीं बलमायुर्य कान्तिं निर्जगामशहाग्रजः श्री श्रीमद्भागवते महापुराणे पारं चां सहितायां दशमस्कन्दे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः श्रीकृष्णगोविन्दहरे मुरारे